श्रीमन महाभारतं श्रीम्मत आदिपर् चैत्ररथ पर्व वासी विश्वाम पराभव चतिकमोध्यार्जुन उवाच किश्वासी वसतेराश्रे दिव्य शंसन सर्वे तत्त गवाच दम् वासिष्ठमाख्यानम् पुराणं परिचक्षते पार्थ सर्वेषु लोकेषु यथावत् तन्निबोधमे कान्यकुब्जे पार्थिवो भरतर्षभ गाधीति विश्रुतो लोके कुशिकस्यात्मसम्भवः तस्य धर्मात्मनः पुत्र समृद्धबलवाहनः विश्वामित्र इति बभूव रिपुमर्दनः स च चारसहामात्यो मृगयाम् गहने वने मृगान् विध्यन्वराहांश्चरम्येषु मरुधन्वसु व्यायामकर्षितः सोऽथ मृगलिप्सु पिपासितः आजगामनरश्रेष्ठवसिष्ठस्याश्रमम् प्रति मागतमभिप्रेक्ष्य वसिष्ठ श्रेष्ठभागृशिः विश्वामित्रम् नरश्रेष्ठम् प्रतिजग्राह पूजया पाद्यार्घ्या च मनीयैस्तम् स्वागतेन च भारत तथैव परिजग्राहवन्येन हविषा तदा तस्याथ कामुदुग्धेनुर्वसिष्ठस्य महात्मनः उक्ता कामान् प्रयच्छेति सा कामान दुह्यते सदा ग्राम्यारण्याश्चौषधीश्च दुदुहे पय एव च षड्रसं चामृतनिभम् रसायनमनुत्तमम् पेयानि भक्ष्याणि विविधानि च लेह्यान्यमृतकल्पानि चोष्याणि च रना च महासि विविधा चे काूर्ण पूजित महीीपतिम सबलश्च सृशं तदा षडुन्नतां सुपारशोरु पृथुपंचसमावृतां सवृता मंडूकनें स्वाकारा पीनोधसमनता सुवालधिं शङ्कुकर्णां चारुशृङ्गां मनोरमाम् पुष्टायत शिरोग्रीवां विस्मितः सोऽभिवीक्ष्यताम् अभिनन्द्य राजा नन्दिनीं गाधिनन्दनः अब्रवीच्य भृशं तुष्टः स राजा ऋषिं तदा अर्बुदेन गवाम् ब्रह्मन् मम राज्येन वा पुनः नन्दिनीम् सम्प्रयच्छस्व भुङ्क्ष्वराज्यम् महामुने वसिष्ठ उवाच देवतातिथिपित्रर्थम् याज्ञार्थम् च पयस्विनी अदेयानन्दिनीयं वै राज्येनापि तवानघ विश्वामित्र उवाच क्षत्रियोऽहम्भवान् विप्रस्तपः स्वाध्यायसाधनः ब्राह्मणेषु उतो वीर्यम् प्रशान्तेषु धृतात्मसु अर्बुदेन गवां यस्त्वम् न ददासि ममेप्सितम् स्वधर्मम् नेष्यामि च बलेन गाम् क्षत्रियोऽस्मि न विप्रोऽहम् बाहुवीर्योऽस्मि धर्मतः तस्माद्भुजबलेनेमाम् हरिष्यामीह पश्यतः वसिष्ठ उवाच बलस्थश्चासि राजा च बाहुवीर्यश्च क्षत्रियः यथेच्छसि तथा क्षिप्रं कुरुमा त्वं विचारय गन्धर्व उवाच एवमुक्तस्तथा पार्थविश्वामित्रो बलादिव हंसचन्द्रप्रतीकाशां नन्दिनीम् तां जहारगां कषादण्डप्रणुदितां काल्यमानामितस्ततः